श्री श्रीगणेशाय नमः श्रीगौरी शङ्कराभ्याम् नमः अथ श्री श्रीशिवमहापुराणे विद्येश्वरसंहितायाम् नवमोऽध्यायः शिवस्य आत्मनो महेश्वराभिधानम् नन्दीकेश्वर उवाच तत्रान्तरे तव च नाथम् प्रणम्य विधि माधवौ तस्त तुलक्ष्य वा मघौ तत्र संस्थाप्यतौ देवं र कुटुम्बं वरासने पूजयामासः पूज्यं पुण्ये पुरुषवस्तुभि पौरुषं प्राकृतं वस्तु नेयं दीर्घाल्पकालिकम् हारेणपुरकेयूर किरीटे मणिकुण्डले यज्ञसूत्रोत्तरे यत्र सौममाल्याङ्गुलीयकै पुष्पताम्बुलकर्पूर चन्दनागुरुलेपने धूपदीपसितच्छत्र व्यञ्जनद्वय चामरे अन्ये दिव्युपहारै च वाग्मनोति तव वैभवै पतियोग्यै पश्वलभ्यै तौ वस्तु पतियोग्यम् हितध्वज तद्वत्सखीलमीशोऽपि पारम्पर्यचिकिसया सभ्यानां प्रददो हृष्ट पृथक् तत्र यथा कोलाहलो महानासीत् तत्र तद्वस्तु गुह्यताम् तत्रैव ब्रह्म विष्णुभ्याम् चाचितः शङ्करः पुरः प्रसन्नपाहुः प्राहतौ नम्रौ सस्मितम् भक्तिवर्धनः ईश्वर उवाच तुष्टोऽहमद्य वां वत्सो पूजयास्मिन् महदिने दिनमेतत् पुण्यम् भविष्यति महत्तरम् शिवरात्री चिख्याता इति रेषा मम प्रिया एतत्काले तु यः कुर्यात् कुयात् जगत कृत्यम स्थिति सर्गा कंपम शिवरात्रो अहोरात्रींद्रिय अस्ते न्याय यहांक मम पूजाया वर्षं निरंतर तत्फल लभते सद शिवरात्रो मदर्शना मद्धर्म वृद्धिकालोऽयम् चन्द्रकालैवाम्बुधे प्रसिष्ठाद्युत्सवो यत्र मामको मङ्गलायनः यत् पुनः स्तम्भरूपेण स्वाविरासमहम्पुरा सकालो मार्गसी चेतु याताद्रारृक्षमर्भक आर्द्राय मार्गशी चेतु यत् मद्वेरम् अपिवालिंगं वा लिङ्गम् स गुहायदपि मे प्रिय हे अलम् दर्शनमात्रेण फलम् तस्मिन् दिने शुभे अभ्यर्सनम् चेदधिकम् बलम् वाचा मगोचरम् रणरङ्गतलेमुष्मिन् यदहम् लिङ्गवष्मणा जुम्भृतो लिङ्गवस्तस्मात् लिङ्गस्थानमिदम् भवेत् अनाद्यन्तम् इदम् स्तम्भ अणुमात्रम् भविष्यति दर्शनार्थं हि जगताम् पूजनार्थम् हि पुत्रकौ इदं लिंगं भुक्तिमुक्त्यैकसाधनम् दर्शनस्पर्शन ध्यानात् जन्तूनां जन्म मोचनम् अनलयचल सङ्काशम् यदिदं लिङ्गमूर्तितम् अरुणाचलमित्येव तदिदम् ख्याति मेष्यति अत्र तीर्थं च बहुधा भविष्यति महत्तरम् मुक्तिरप्यत्र जन्तूनाम् वासेन मरणेन च रथोत्सवादिकल्याणम् जनावासम् तु सर्वतः अत्र दत्तम् हुतम् सर्व कोटि गुणम् भवेत् मच्छत्रादपि सर्वस्मात् क्षत्रमेतत् महत्तरम् अत्र संस्मृतिमात्रेण मुक्तिर्भवति देहिनाम् तस्मान् महत्तरम् इदम् चेत्रम् अत्यन्त शोभनम् सर्व मुक्तिकरम् शुभम् असीत्वात्र मामेव लिङ्गे लिङ्गेन ीश्वरम् सालोक्यम् चैव सामीप्यम् सारूप्यम् साक्षिरेव च सायुज्यमिति पञ्चते क्रियादीनाम् फलं मतम् सर्वेऽपि यूयम् सकलम् प्राप्स्यथाशो मनोरथम् नन्दिकेश्वर इति अनुगृह्य भगवान् विनितो विधि माधवो यत्पूर्वम् प्रहतम् युद्धे तयोः सैन्यम् परस्परम् पयदत्यर्थं। स्वशक्त्यामृतधारय तयोर्मूढ्यं च वैरं च व्यपनेतुम् उवाच तौ सकलं निष्कलं चेति स्वरूपद्वयमस्ति मे नान्यस्य कस्यचित् अस्मात् अन्य सर्वोऽप्यनीश्वरः पश्चादरूपेण चार्भकौ ब्रह्मत्वम् निष्कलम् प्रोक्तम् ईश्वत्वम् सकलं तथा द्वयम् ममैव संसिद्धम् न वदन्यस्य कस्यचित् तस्मादीशत्वमन्येषाम् यो युवयोरपि न तदज्ञानेन वा वृत्तम् ईशमानम् अहद्भुतम् उत्थितोहम् रणक्षितौ चयतम् मानमात्मीयम् महीषम् कुरुतम् मतिम् मत्प्रसादेन लोकेषु सर्वोऽप्यर्थ प्रकाशते गुरुक्तिर्व्यञ्जकम् तत्र प्रमाणम् वा पुनः पुनः ब्रह्मतत्त्वम् इदम् गूढम् भवत्प्रीत्या भणाम्यहम् मत्स्वरूपम् कलाकलम् ब्रह्मत्वादीश्वरश्चाहम् कृत्यं मे नोग्रहाधिकम् गृहस्त्वाद्ब्रह्मणस्त्वाच्च ब्रह्माहम् ब्रह्म केशव समत्वाद् व्यापकस्त्वाच्च परे सर्वे जीवा एव न सोचय अनुग्रहाद्यं सर्गान्तम् जगत्कृत्यं च पञ्चकम् ईश्वरतादेव मेह्नित्यम् कस्यचित् अदो ब्रह्मत्वबुद्ध्यर्थम् निष्कलम् लिङ्गमुत्थितम् तस्मात् ज्ञातुम् ईषत्तम् व्यक्तम् द्योतयितुम् हिवाम् सकलोह मतो साक्षाधीशतु तच्च सकलत्थं ईश्वस्तम् मयि सत्वरम् यदिदम् निष्कलम् स्तम्भम् मम ब्रह्म स्वबोधकम् लिङ्गलक्षणयुक्तत्वान् मम लिङ्गम् भवेदिदम् तदिदम् नित्यमभ्यस्यम् युवाभ्याम् अत्र पुत्र गौ मदात्मकम् इदम् नित्यम् मम सान्निध्यकारणम् महत्पूयमिदम् नित्यम् अभेदलिङ्गलि लिङ्गिनो यत्र प्रतिष्ठितम् येन मदीयम् लिङ्गमीदृशम् तत्र प्रतिष्ठित सोऽहम् अप्रतिष्ठोऽपि वत्सक मत्साम्यमेकलिङ्गस्य स्थापने फलमीरितम् द्वितीये स्थापिते लिङ्गे बधैक्यम् फलमेव हि लिङ्गम् प्राधान्य तत्स्थाप्यम् तथा तु गौणकम् लिङ्गान् भावेन तत् क्षेत्रम् सवेदम् अपि सर्वतः इति श्रीशिवमहापुराणे विद्येश्वरसंहितायाम् शिवस्य महेश्वराभिधानवर्णनम् नाम नवमोऽध्यायः श्रीगौरी शङ्करार्पणमस्तु